रिपोराधत्तबृहदीवक्षुषं सर्वतेजसं तस्य पुत्रो मनुर्विद्वान् ब्रह्मक्षत्रप्रवर्तकः व्यजीजनपुष्करिणी वारुणी चक्षुषं मनुं ऋषय ऊचुः प्रजापदे सुधा कस्माद्वारुणि प्रोच्यते नख तदा चक्षुतत्वेन कुशलो ह्यसि विस्तरे सुत उवाच अरण्यस्योदकः पुत्रो वरुणत्वमुपागतः तेन स वरुणीज्ञेया भ्रात्राख्यातिमुपागता मनोरजायन्ददशनड्वलायां सुधाशुभाः सुमहावीर्या विरजस्य प्रजापतेः ऊरुः पुरुश्च दद्युम्नस्तपस्वी सत्यवाकृतिः अग्निष्टुदधिरात्रश्च सुद्युम्नश्चेदिवै नव अभिमन्युश्च दशमो नड्वलायां मनोःसुतः ऊरो रजनयत्पुत्रान् षडाग्नेयी महाप्रभान् अङ्गं सुमनसङ्ख्यादिङ्गयं शुक्रं व्रजाजिनौ अङ्गात् सुनीधापत्यं वैव्यनमेकं व्यजायद तस्या पराधाध्वेनस्य प्रकोपस्तु महान्भूद प्रजार्थमृषयो यस्य मम दुर्दक्षिणाङ्करम् जनितस्तस्य पाणौ दु मधिदे रूपवान् पृधुः जनयित्वा सुदं तस्य पृथुं प्रथिदपौरुषम् अब्रुवं राजा ऋषयो मुदिताः प्रजाः स धन्वी कवची जज्ञे त्यजसा निर्दहन्निव वृत्तीना शो दादा भविष्य नृथु वैन्य लोकान्द्ररक्षज राजषिक्ता नसुताधिपुत्त्त्पन्नौ निपुण तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता प्रजानां वृत्तिकामानां देवैश्चर्षि गणैः सह पितृभिर्धानवैश्चैव गन्धर्वैश्चाप्सरोगणैः सर्पैः पुण्यजनैश्चैव पर्वतैर्वृक्षविरुधैः तेषु तेषु दुपात्रेषु पात्रेषु दुह्यमाना वसुन्धरा प्रादाद्यधेऽप्सि तं क्षीरं तेन प्राणानधारयन् शांशपायन उवाच विस्तरेण पृथोर्जन्मकीर्तय स्वमहाव्रत यथा महात्मना तेन पूर्वं दुग्धा वसुन्धरा यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह यक्षैराक्षसगन्धर्वैरप्सरोभिर्यथा पुरा यथा यथा तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव तथा वत्सविशेषांश्च त्वनः प्रब्रूहि पृच्छतां यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः यस्मिंश्च कारणे पाणिर्वनस्यमधिदः पुरा कुद्धैर्महर्षिभिक् पूर्वै करणं ब्रूहि तद्धिनः सुद उवाच कथयिष्यामि वो विप्राः पृथोर्वैन्यस्य सम्भवम् एकाग्रा प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः नाशुद्धाय नपापाय ना नाशिष्यायाशितायच वर्तनीयमिदं ब्रह्मणा व्रताय कथञ्चन धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमिदम् रहस्य मृषि प्रोक्त शृणुया दो नसूय येन्मर्थ्यपृथो संभव ब्राह्मणे नमस्कृत न स शोचेत्ता गुप्ताधर्म से राज सौ बभूवातृसम प्रभु अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः तस्य पुत्रो भवद्वेनो नात्यर्थं धार्मिकस्तथा चादो मृत्युसुधायां वै सुनिधायां प्रजापतिः समादामहदोषेण वेनकालात्मजात्मजः स धर्मं पृष्ठध कृत्वा कामाल्लोकेष्वर्तद स्थापनं स्थापयामः स धर्म एतां स पार्थिवः वेदशास्त्राण्यधिक्रम्य सोऽधर्मे निरदो भवद निःस्वाध्यायवषत्कार्ये तस्मिन् राज्यं प्रशासति न पिबन्धि महायज्ञेषु देवताः न यष्टव्यं न दातव्यमिति तस्य प्रजापतेः आसीत् प्रतिज्ञा क्रूरेयं विनाश्ये प्रत्युपस्थिते अहमीज्यश्च भुज्यश्च यज्ञे देवद्विजादिभिः मयि यज्ञा विधातव्या मयि होतव्यमित्यपि तमधिक्रान्तमर्यादमवधानसुसंवृद्धम् ऊजोर्महर्षयः सर्वे मरीचिप्रमुखास्तदा वयम् दीक्षां प्रवेक्ष्या मत्संवत्सरसदं नृप त्वं मा कार्षीरधर्मं वैनैषधर्मसनातनः निधने सम्प्रसूतस्त्वं प्रजापतिरसंशयः पालयिष्ये प्रजाश्चेदि पूर्वं ते तांस्तथा वाधिनः सर्वान् ब्रह्मर्षी न ब्रवीत्तदा वेन प्रहस्य दुर्बुद्धिर्विदिते न च कोविदः स्रष्टाधर्मस्य कश्चान्यश्रोतव्यं कस्य वा मया वीर्यणतपसा सत्यैर्मया वा कत्समो भुवि मन्दात्मानो ननूनं मां यूयं जानीतत्वदः प्रभवं सर्वलोकानां धर्माणां च विशेषदः इच्छन्त हेयं पृथिवीं प्रावयेयं जलेन वा सृजेयं वा यदान वा नात्रकार्या विचारणा यदा न अनुनेदुं तदा वेनस्तध क्रुद्धा महर्षयः निगृह्यतं च बाहुभ्यां विस्फुरन्तं महाबलं ततोऽस्य वामहस्तं ते मम दुर्भृशकोपितः तस्मात् प्रमभ्यमानाद्वै जज्ञपूर्वमिति श्रुतिः ह्रस्वोदिमात्रं पुरुषकृष्णश्चापि बभूवः सभीदः प्राञ्जलिश्चैव तस्ति वानाकुलेन्द्रियः तमार्थं विह्वलं दृष्ट्वा निषीद्येत्यब्रुवन् किल निषादवंशकर्तासौ बभूवा नन्दविक्रमः धीवरा ये चान्ये विन्ध्यनिलया स्तम्बुरास्तुम्बुराखशाखा अधर्मरुचयश्चापि विद्धितान्वेन कल्मषान् पुनर्महर्षयस्तस्य पाणिम्बेनस्य दक्षिणम् अरण्यमिव संरब्धा मम धुर्जातमन्यवः पृधुस्तस्मात् समुत्पन्नक् कराज्जलजसन्निभाद पृथो करतलाद्वापि यस्माज्जादःपृषुस्ततः दीप्यमानश्च वपुषा साक्षादग्निरिवज्वलन् आद्यमा जगवं नाम धनोर्गृह्यमहारवम् शारांश्च बिभ्रद्रक्षार्थकवचं च महाप्रभं तस्मिञ्जातेथभूतानि सम्प्रहृष्टानि सर्वशः समापेदुर्महाराजं वेनश्चत्रुदिवङ्गतः समुत्पन्नेन राजर्षिसत्पुत्रेण महात्मना त्रादस्सपुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः अभिषेकाय तोयं च सर्व एवोपदस्थिरे पितामहश्च भगवानङ्गिरोभिस्सहारैः स्थावराणि जूतानि जङ्गमानि च सर्वशः समागम्य तदा वैन्यमभ्यिञ्चन्नराधिपं महदा राजराजेन प्रजापालं महाद्वितिं सोऽभिषिक्तो महाराजो आदिराजो महाभागपृधुर्वैन्यः प्रतापवान् पित्रा परञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ततो राजेति पर्वतास्वीर्यंदज भाभवद आकष्टपच् पृथिवी सिद्ध्यितर्व कामदुखा गा वस्फुट फुटके मधु यदस्म काजत वै मुखे सोमे सुदे समुत्पन्नः सुदस्सौत्ये तदाखनि तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञेध मागधः गधः सामगे शृजगायत्सु शुभाण्डे वैश्वदेविके समागदे समुत्पन्नस्तस्मान् मा गध उच्यते ऐन्द्रणः विशाचापि हविः पृक्तं बृहस्पतेः जुहावेन्द्रा यदैवेन तदः सुदोव्यजायत प्रमादस्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु शिष्य हव्येन यत्पृकृतमभिभूतं गुरोर्हविः अधरोत्तराधारेण यज्ञे तद्वर्णवै यच्च क्षत्रात् समभवद्ब्राह्मण्यां हीनयोनितः सूदः पूर्वेण सा धर्म्यात्तुल्यधर्मप्रकीर्तितः मध्यमो ह्येष धर्मः क्षेत्रोपजीवनं रथनागाश्वचरितं जघन्यञ्च चिकित्सितं पृथौस्तवार्थं तौ तत्र समाहूदौ महर्षिभिः तावू चोर्मुनयत्सर्वे स्तूयतामेष पार्थिवः कर्मै तदनुरूपं च पात्रं चायं न राधिपः तावूच दुस्तदः सर्वां तान् आवां देवान् ऋषींश्चैव प्रीणयावस्वकर्मतः न चास्य विद्वो वै कर्म न तथा लक्षणं यशः स्तोत्रं येनास्य कुर्यावप्रोचुस्तेजस्विनो द्विजाः येष कर्मरथो नित्यं सत्यवाक् संयदेन्द्रियः संग्रामेश्वपराजितः शीलो वद संग्रमेपराजि ऋषिस्त नि भविष्य स्तूता में महाबलः तानि ते गीत निब्धा नि सुतमागध तदस्तवान् दे सुप्रीदपृथुप्रदात् प्रजेश्वरः अनूपदेशं सुदाय मगधं मागधायच तदादि तदाधिपृथिवी पाला स्तूयन्ते सुदमागधैः आशीर्वादैः प्रबोध्यन्ते सुदमागधबन्दिभिः तं दृष्ट्वा परमप्री दाः प्रजा ऊजुर्महर्षयः एष वैन्यो भविष्यधि तदो वैन्यमहाभागं प्रजा समभिदुद्रुवुः त्वं नो वृत्तिं विदत् तदा सो प्रजाभिस्तु भीद्रुद प्रजास्थ प्रजादचिकीर्षया धनुर्गृी बाणाश वसुधाद्रवदबी तद वैन्य भयत्रौरभूवाभाद्रवन्मी तायद्रवमती मधाद सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा सन्ददर्शाग्रदो वैन्यं कार्मुकोऽद्यतपाणिकं ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतं महायोगमहात्मानं दुर्धर्षमरैरपि अलं बन्दी तु सात्राणम् वैन्यन्वप्यतृतापुट देवी पूज्या लोकस्त्री सदा उज वैनमस्त्री वधे पीप्यति कथम धारयिता वर्धिता मै मयि लोकास्तिदार राजन्मेद धार्य जगद मत्कृते न विनश्येयुः प्रजाः पार्थिववर्धिताः स मां नर्षसि वै हन्तुं श्रेयस्त्वं च चिकीर्षसि प्रजानां पृथिवीपालशृणुच्छेदं वचो ममाम् उपायदः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः अत्वापि मान्नचक्रस्त्वं प्रजानां पालने नृप अन्तर्भूता भविष्यामि जहि कोपं महाद्युते अवध्यश्च स्त्रियः प्राहुस्तिर्यज्ञो निगतेष्वपि सत्त्वसुपृथिवीपालथमनत्यक्तुमर्हसि एवं बहुविधं वाक्यं श्रुत्वा तस्या महामनाः क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीद एकस्यार्थाय यो हन्यादात्मनो वा परस्य च एकं प्राणी बहून्वापि कर्म तस्य स्तिपातकम् यस्मिं स्तुनिहदे भद्रे जीवन्ते बहवः सुखं तस्मिन् हदे नास्ति शुभे पादकं चोपपादकं सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे यदि मे भजनं नाद्य करिष्यसि जगद्धिदं त्वां निहत्याशु बाणेन मच्छासन पराङ्मुखीम् आत्मानं प्रथयित्वेह प्रजा धारयिता स्वयं सात्वं त्वं वचनमास्थाय मम धर्मभृदाम्बरे सञ्जीवय प्रजा नित्यं न संशयः दुःखितृत्वं च मे गच्छमेदमहं शरं नियच्छेयं त्वद्वदार्थमुद्यन्तं घोरदर्शनम् प्रत्युवाच तदो वैन्यमेव मुक्ता सधीमही सर्वमेतदहं राजन्विधास्यामि न संशयः वत्सं तु ममतं पश्य क्षरेयं येन वत्सला समाञ्चकुरु सर्वत्र मान्त्वं धर्मभृदाम्बर यथा विस्पन्दमानं मे क्षीरं सर्वत्र भावयेद् सूत उवाच तद उत्सारयामास शिला शिलाजनीसर्वशोट्या वैन्यस्त शैला विवर्धिता मन्वरेषु विषमासी वसुंधरा स्वभा विषमा च न हि पूर्वनिसर्गे वैविषमे पृथिवीतले प्रविभागः पुराणां वा वापि विद्यते न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः चाक्षुषस्यान्तरे पूर्वमासीदेधत्पुरा किल तरे संभवः समत्वं यत्र स्वते भूमे संभव सम यसदू तत्र त्र प्रजास्ता वै निवसर्वश आहार फलमूले प्रजात्ल कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम वैन्यात्प्रभृति लोकेऽस्मिन् सर्वस्यैतस्य सम्भवः सकल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरः पृथुर्दुदोः सस्यानि श्वेतले पृथिवीं तदः तेनान्येन तदस्ता वैवर्तयन्ति शुभाः प्रजाः ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा वत्सोमस्त्वभूतेषां दोग्धा चापि बृहस्पतिः छन्दास्य पात्रमासीत्तु गायत्र्यादीनि सर्वशः क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतं पुनस्तदो देवघनैः पुरन्तरपुरोगमैः सौवर्णं पात्रमादायदुग्धा संश्रूयते मही वत्सस्तु मघवाना सिद्धोग्धा क्षिरमूर्जं च मधु च वर्तन्ते तेन देवताः पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा राजदं पात्रमादाय स्वधामाशु वितृप्तये वैवस्वदोयमस्त्वासी तेषां वत्सप्रदापवान् अन्धकश्चाभवद्दोग्धापि दृणां बलवान् प्रभुः असुरै श्रूयते पुनर्दुग्धा वसुन्धरा आयसम्पात्रमादाय किल मायश्च सर्वशः विरोचनस्तु प्राह्दिर्वत्सस्तेषां महायशाः त्रिग्द्विमूर्धा दैत्यानां दोग्धा भूदितिनन्दनः पायसाते च मायाभिः सर्वे मायाविनोऽसुराः वर्तयन्ति महावीर्यास्तां परमं बलं नागैस्तु श्रूयते दुग्धा वत्सं कृत्वा तु तत्क्षमम् अलाबू पात्र विषम क्षीर तदा मही त वै वासुकर्दोधा का प्रतापवान्गा वै द्जश्रेष्ठ सर्ण चर्वश तेन वर्तयन्द्युग्र महाकाया विशोलण तदा हारास्तदा चारास्तद्वीर्यास्तदुपाश्रयाः हा। आमपात्रे पुनर्दुग्धा त्वं तर्धा न मही वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा दुग्धा रचतनाभस्तु पिता यज्ञात्मजो महातेजा वशी च सुमहायशाः तेन ते वर्तयन्तीति राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्दरा ब्रह्मा ब्राह्यास्तु वै दोग्धा तेषामासीत् कुबेरकः वत्सुमाली बलवान् क्षीरं रुधिरमेव च कपालपात्रे निर्दुग्धा ह्यन्तर्धनं च राक्षसैः तेन क्षीरेण रक्षांसि वतयन्तीह सर्वशः पद्मपात्रे पुनर्दुग्धा गन्धर्वैश्चाप्सरोगणैः वत्सं चित्ररथं कृत्वा शुचिन् गन्धात्मही तदा तेषां वसुरुचिस्त्वासिद्धोग्धा पुत्रो मुनेः शुभः गन्धर्वराजोऽगिबलो महात्मा सूर्यसन्निभः शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा तदषधीमूर्तिमीरत्नी विविधा च वत्सस्तु हिम्वासी दुग्धा मेरुर्मगिरी पात्र शैलमे तेना शैला प्रतिष्ठिता श्रूय वृक्ष वीरुद्धि पुनर्दुग्धा वसुंधरा कालाशं पात्रमादायच्छिन्नदग्धप्ररोहणं कामदुः पुष्पिदशैलः प्रक्षो वत्सो यशस्विनां सर्वकामदुःखा दोग्ध्रीपृथिवीभूतभाविनी सैव धात्रीविधात्री च धारणी च वसुन्धरा दुग्धाहितार्थं लोकानाम् पृथुनेधिनः श्रुतं चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्घपादे शेषमन्वन्तराश्यानं पृथिवी दोहनं च नाम षट्त्रिंशत् स्तमोऽध्यायः ओ